ॐ नमो भगवते वासुदेवाय अथ कदर्योपाख्याने सप्तविंशोऽध्यायः श्रीनारायण उवाच इत्युक्त्वा विरतं राजा मुनीश्वरमनि नमपूजयत्ततो भक्त्या सपत्नीको मुदान्वितः उररीकृत्य तत्पूजाम् आशीर्वादमुदीरयत् स्वस्तितेस्तु गमिष्यामि सरयूं पापनाशिनीम् आवयुर्वदतोरेवं सायंकालोऽधुना भवत्त्वाशु जगामैव वाल्मीकिमुनि सत्तमः आसीमान्तमनुव्रज्य राजाप्यागतवान् गृहम् आगत्य स्वप्रियामाह सुन्दरीम न्दरीन्वो वाच अयि सुन्दरि संसारे ह्यसारे किं सुखं नृणां रागद्वेषादिषटत्रौ गन्धर्वनगरूपमी कृमिभस्मरूपेऽस्मिन् देहे मे किं प्रयोजनं मलमूत्रां वने, वने। गमिष्यामि वरारोहि संस्मरन् पुरुषोत्तमम् तदा कर्ण्यप्रिया प्राः साध्वी सा गुणसुन्दरी विनयावनता भूत्वा बद्धाञ्जलिपुटाशुचं गुणसुन्दर्युवाच अहमप्यागमिष्यामि त्वयैव सह भूपते पतिव्रतानां स्त्रीणां तु पतिरेव हितैवतं पत्यौ गते तु या नारी गृहे तिष्ठति सौनवे स्नुषाधीना तु सा नारी शुनीव परवेश्मनि मितं पिता ददात्येव मितं भ्रातामितं सुतः अमितस्य प्रदातारं भर्तारं का नु न व्रजेत् ऊरीकृत्य प्रियावाक्यं सुतं राज्येऽभिषिच्य च सह पत्न्या यजौ शीघ्रम् अरण्यं मुनिसेवितम् हिमाचलसमीपे च गङ्गामासाद्य दम्पती त्रिकालञ्चक्रतुः स्नानम् पुरुषोत्तमे पुरुषोत्तमं समासाद्य विधिना तत्र नारद तपस्तेऽपि सपत्नीकः संस्मरन् पुरुषोत्तमम् ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठेन संस्थितः नभो दृष्टिर्निराहारः श्रीकृष्णं तमजी जपत् एवं व्रतविधौ तस्य तस्थुषश्च तपोनिधे सेवाविधौ प्रपन्नासीन् महिषी सा पतिव्रता एवं कृतवतस्तस्य सम्पूर्णे पुरुषोत्तमे विमानमागमत्तत्र किङ्किणीजालमण्डितम् पुण्यशीलसुशीलाभ्यां सेवितं सहसा गतं तद्दृष्ट्वा विस्मयाविष्टः को महामहीमतिः सपत्नीको महीपतिः अनीनमद्विमानस्थौ पुण्यशील सुशीलकौ ततस्थौ तं सपत्नीकं विमानं निन्यतुर्नृपम् विमानमधिरुह्याथ सपत्नीको नराधिपः गोलोकं गतवान् शीघ्रं दिव्यं धृत्वा वपुर्नवम् एवं तप्त्वा तपो राजा मासे श्रीपुरुषोत्तमे निर्भयं लोकमासाद्यधौ पतिव्रता च तत्पत्नी सापि तल्लोकमायजौ पुरुषोत्तमे तपस्यन्तं संसेव्यनिजवल्लभम् श्रीनारायण उवाच वर्णयामि किमद्याहं यदेकरसनाम पुरुषोत्तमसमं किञ्चिन् नास्ति नारदभूतले सहस्रजन्मतप्तेन तपसाय न गम्यते तत्फलं गम्यते पुंभिः पुरुषोत्तमसेवनात् व्याजतोऽपि कृते तस्मिन् मासे श्रीपुरुषोत्तमे उपवासेन दानेन स्नानेन च जपादिना कोटिजन्म कृतानेक पापराशिर्लयं व्रजेत् यथा शाखामृगस्याशु त्रिस्ना त्रिरात्र अजानतोऽपि दुष्टस्य प्राक्त कुकर्मिणां सञ्चयो विलयं यातु मासे श्री पुरुषोत्तमे। सोपि वपुर धृत्वा विमानमधिरुह्य च अगमद्दिव्यगोलोकं जरामृत्युविवर्जितम् अतः श्रेष्ठतमो मासः सर्वेभ्यः पुरुषोत्तमः दुष्टं शाखामृगं योऽसौ व्याजेनापि हरिं अहो मूढा न सेवन्ते मासं श्रीपुरुषोत्तमं ते धन्या कृतकृत्यास्ते तेषां च सफलो भव पुरुषोत्तममासं ये सेवन्ते विधिपूर्वकम् स्नानदान जपैर्होमयि रुपोषणपुरःसरैः सर्वार्थसाधनं मृगोऽप्यधा मुक्तो यद् व्याजसेवनात् नारद उवाच सर्वार्थसाधनं वेदे मानुषं जनुरुच्यते अयं शाखा मृगोऽप्यद्धा मुक्तो यद् व्याजसेवनात् तद्वदस्वकथामेतां सर्वलोकहिताय मेत्रासौ कृतवान् स्नानं त्रिरात्रं तपसां निः किमाहारः क्वचावसत् व्याजेन तस्य किं पुण्यं जातं श्रीपुरुषोत्तमे तत्सर्वं विस्तरेणैव मह्यं शुश्रूषवे वद न तृप्तिर्जायते त्वत्तः शृण्वतो मे कथामृतम् श्रीनारायण उवाच कश्चित्केरलदेशीयो द्विजः परमलोलुपः नित्यं धनक्षये दक्षः सर्गेव धनप्रियः लोके कदर्य इत्याख्यां गतस्ते नैव कर्मणा चित्रशर्मा पुरा नाम तस्यासेत्पि त्रिकल्पितम् सदन्नञ्च सुवस्त्रं च न भुक्तं तेन कुत्रचित् न स्वाहा न स्वधा वापि कृता तेन कुबुद्धिनां यशोऽर्थेन कृतं किञ्चित् पोष्यवर्गो न पोषितः सर्वं भूमिगतं चक्रे धनमन्याय सञ्चितम् न माघे तिलदानं च कृतं तेन कदाचन कार्तिके दीपदानं च ब्राह्मणानां भोजनं वैशाखे धान्यदानं च व्यतिपाते च काञ्चनं वैधृतौ राजतं दानं सर्वदान्यमुनि च काले न दत्तानि कदाचन चन्द्रसूर्योपरागे च जप्तं न हुतं वाचं सर्वत्राश्रुपरिप्लुतः वर्षवातातपक्लिष्टः कृशः श्यामकलेवरः चोभेन मूढधीर्भूतले सदा कोऽपि यच्छतु यत्किञ्चित् पामराय मुहुर्वदन् स गो दोहनमात्रमि लोकधिक्कारसन्दग्धो बभ्रामोद्विग्नमानसः तन्मित्रं वाटिकानाथः कश्चिदासीद् वनेचरः सतं निवेदयामास स्वदुःखं सन्हृदन्मुहुः तिरस्कुर्वन्ति मां नित्यं पुटभेदनवासिनः अतस्तत्र मया स्थातुं न पुटभेदने इत्येवं वदतस्तस्य कदर्यस्य द्विजन्मनः अतिदीनतरां वाचम् आकर्ण्य कृपयाप्लुतः तं दीनं मत्वा करोदयां हे कदर्य वाटिकायां वसाधुना मालाकारवचः श्रुत्वा कदर्यः तिरस्कृतः सतद् वाटीवासुतः परिपालकः अतिविश्वस्त वाटिका पतिः तमेवाचीकरद् तमेवाचीकरदविप्रं स्वकल्पं वाटिकापतिं ततः ममायमिति निश्चयात् विहाय वाटिका चिन्तां सिशेवे राजमन्दिरं राजद्वारे सदा कार्यं तस्यात्यन्तमपिभवत् पराधीनतया चासौ वाटिकां न जगामहं तत्फलानि कदर्यस्तु जघास लोभेनातीव दुर्बलः अगृह्णाद्रविणं तज्जं सर्वं स्वयमशङ्कितः यदा चनगरं पृच्छदवनाधीशस्तदग्रेऽपि वदन्मृषा भैक्षकं घासं घासं दिवारात्रौर्यामि परिचर्यामि ते वनम् तथाप्यस्य फलान्यासन् मासं गच्छन्ति पक्षिणः पश्यास्नन्तु मया केचित् नाशिता खजरा भृशं तेषां मांसानि पतितानि पतितानीह सर्वतः तद्दृष्ट्वा तीव विश्वस्य जगामवाटिका पतिः एवं प्रवर्तमानस्य जग्मुर्षाणि दुर्मतेः प्ताशीतिः कदर्यस्य वा दारुणी ना क्षीयते पापम् इति तस्माच्चाः प्रकुर्वाणि तस्मा प्रकुर्वाणो मुद्गराघातपीडितः अजीगमन् महामार्गं कृच्छ्रीणातिविभीषणम् स्मरन् पूर्वकृतं कर्म प्रल्पनबुद्बुदाक्षरम् अहो मे पश्यताज्ञानं कदर्यस्य चतुर्मतिः आसाद्यमानुषं देहम् दुर्लभं त्रिदशैरपि खण्डेस्मिन् भारते पुण्ये कृष्णसारमृगान्विति किं किंकृतं धनलोभेन व्यर्थं नीतं जनुर्मयं तद्धनं तु पराधीनं चिरकालार्जितं मया किं करोमि पराधीनः कालपाशावृतोऽधुनां मानुषं जनुरासाद्य न शुभम् न नहुतं वहनौ। हुतं वह्नौ न सेवितं तोयं माघे मकरगेरवौ उपवासत्रयं चान्ति नकृतं पुरुषोत्तमे नकृतं कृतं कार्तिके प्रातः स्नानं सतारकागणं न पुष्टश्च मानुषः पुरुषार्थदः अहो मे सञ्चितं द्रव्यम् भूमौ जीवो ैर्निर्वापितो नापि सदवसनाच्छन्नः स्वदेहपर्वणि क्वचित् न ज्ञातयो बान्धवाश्च स्वजना न स्वसा अपि माता च सुता वापि पिता मातानुजास्तथा पतिव्रतापि गृहिणी ब्राह्मणा नैव तोषिता मिष्ठान्नैरेकवारं च तर्पिता न मया क्वचित् एवं विलपमानं तं निन्युः कीनाशसन्निधिं तं दृष्ट्वा चित्रगुप्तस्तु विलोक्यैतच्छुभाशुभम् अवोचत् स्वामिनं धर्मं कदर्योऽयं द्विजाधमः न सुकृतं त्वस्य धनलुब्धस्य दुर्मचीकरत्पाटिकास्थितः विश्वस्तु वाटिका पतेः ततो जघासतान्येव पक्वानि यानि यानि च व्यक्रीणादवशिष्टानि धनलोभेन दुर्मतिः फलचौर्यकृतं पापम् विश्वासघातजं परम् एतत्पापद्वयं अत्युग्रं वर्तते प्रभो अन्यान्यपि च पापानि सन्त्यस्मिन् विविधानि च इत्थं निशम्य विधिनन्दनचित्रगुप्त वाक्यं क्रुधा प्रबलयाप्लुत प्लुतधर्मराजः आहैषया तु कपि जन्मसहस्रकृत्व विश्वासघातकृतिजं फलमस्य पश्चात् इति श्रीबृहन्नारदीयपुराणी पुरुषोत्तममासमाहात्म्ये श्रीनारायण नारदसंवादि कदर्योपाख्याने सप्तविंशोऽध्यायः श्रीपुरुषोत्तमार्पणमस्तु